हरि ओं ज्जाग्रतो दूरमुदैति दैवं दधुसुप्तस्य दू तथैवैति दूरङ्गभञ्ज्योतिखञ्ज्योतिरे कन्तन्मे मनः शिवसङ्कल्पमस्तु जेन कर्मण्यपशो मणिक्षिणो यज्ञे कृण्वन्ति विदधे कुधीराः जगतपूर्वमन्तः प्रजानन्तन्मे मनः शिवसङ्कल्पमस्तु यत्र ज्ञानमुत चेतो यदिश्च ज्योतिरन्तरमृतं प्रजासु यस्मान्न ऋते किञ्चन कर्म क्रियते तन्मे मनः शिवसङ्कल्पमस्तु जेनेदम्भूतम् भुवनम्बविषद्भरिहीतमृतेन सर्वं जेन जज्ञस्तायते सत्त्वभूता तन्मे मनः शिव सङ्कल्पमस्तु यस्मिन्नृजः सामजुवङ्किजस्मिन् प्रतिष्ठिता रथनाभाविवारा यस्मिश्चित्तमोदं प्रजानन्तन्मे मुनः शिव सङ्कल्पमस्तु सुखारतिरस्वामि भजन्मनुष्ठान्मे नीयते भीषु विर्वाजिन इव हृत्प्रतिष्ठन् च दजिरं जष्ठन्तन्मे मुनः शिव सङ्कल्पमस्तु पितुं स्तोकं महो धर्माणन्त विखियम् यस्य त्रितो व्योजसावृत्रां विपर्वामर्दयत अन्विदनुमते त्वां मान्यासैशञ्चनस्कृदि कृत्वे दक्षाय नो हि नुप्रण आयुवङ्कितारिघा अनूनुवज्ञानुमतिजज्ञां